त्रिनवतितमोऽध्यायः वसुमानुवाच पृच्छामि त्वाम् वसुमानौषधस्विर्यद्यस्ति लोको दिवि मे नरेन्द्र यद्यन्तरिक्षे प्रथितो महात्मन् क्षेत्रज्ञम् त्वाम् तस्य धर्मस्य मन्ये ययातिरुवाच यदन्तरिक्षम् पृथिवी दिशश्च यत्तेजसा तपते भानुमांश्च लोकास्तावन्तो दिवि संस्थिता वै तेनान्तवन्तः प्रतिपालयन्ति वसुमानुवाच तांस्ते ददानि माप्रपतप्रपातम् ये मे लोकास्तवते वै भवन्तु क्रीणीष्वैतांस्तृणकेनापि राजन् प्रतिग्रहस्ते यदि धैमन्प्रदृष्टः ययातिरुवाच न विक्रयं विक्रयम् वै स्मरामि वृथा गृहीतम् शिशुकाच्छङ्कमानः कुर्याम् न चैवाकृतपूर्वमन्यैर्विधित्समानः किमु तत्र साधु वसुमानुवाच तांस्तवम् लोकान्प्रतिपद्य स्वराजन्मया दत्तान्यदिनिष्ठक्रयस्ते अहम् न वै प्रतिगन्ता नरेन्द्र सर्वे लोकास्तवते वै भवन्तु शिबिरुवाच पृच्छामि त्वाम् शिबिरौषीनरोऽहम् ममापि लोका यदि सन्ती हतात यद्यन्तरिक्षे यदि वादिविश्रिताः क्षेत्रज्ञम् त्वाम् तस्य धर्मस्य मन्ये ययातिरुवाच यत्वं वाचा हृदयेनापि साधून् परीप्समानान्नावमंस्था नरेन्द्र तेनानन्ता दिवि लोकाश्रितास्ते विद्युद्रूपा स्वनवन्तो महान्तः शिबिरुवाच तांस्त्वम् लोकान् प्रतिपद्य स्वराजन् मया दत्तान् यदि नेष्टक्रयस्ते न चाहम् तान् प्रतिपत्स्ये हदत्वा ययातिर्वाच यथा त्वमिन्द्रप्रतिमप्रभावस्ते चाप्यनन्ता नरदेवलोकाः तथाद्यलोके नरमेऽन्यदत्ते तस्माच्छिबेनाभिनन्दामि देयम् अष्टक उवाच न चेदेकैकशो राजन् सर्वे प्रदाय भवते गन्तारो नरकम् वयम् यदर्होऽहम् तद्यतध्वम् सन्तः सत्याभिनन्दिनः अहम् तन्नाभिजानामि यत्कृतम् न मया पुरा अष्टकौ वाच कस्यैते प्रतिदृश्यन्ते अधः लोकान् अभिवाञ्छति शाश्वतान् युष्मानेते वहिष्यन्ति रथाः पञ्चहिरण्मयाः उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽनिशिखा इव वैशम्पायन उवाच एतस्मिन्नन्तरे चैव माधवी तपोधना मृगचर्मपरीताङ्गि परिणामे मृगव्रतम् मुरुग मृगैः सहचरन्ती सा मृगाहारविचेष्टिता यज्ञवाटम् मृगगणैः प्रविश्य भृशविस्मिता आघ्रायन्ती धूमगन्धम् मृगैरेव चचारसा यज्ञवाटमठन्ती सा पुत्रांस्तानपराजितान् पश्यन्ती यज्ञमाहात्म्यम् मुदं लेभे च माधवी असंस्पृशन्तम् वसुधाम् ययातिम् नाहुषम् तदा दिविष्ठम् प्राप्तमाज्ञाय ववन्दे पितरम् तदा ततो वसुमनाः पृच्छन् मातरं वैतपस्विनीं। तपस्विनीम् वसुमना उवाच भवत्या यत्कृतमिदम् वन्दनम् वरवर्णिनि कोऽयम् देवोऽथ वा राजा यदि जानासि मे वद माधव्युवाच शृणुध्वम् सहिताः पुत्रा नाहुशोऽयम् पिता मम ययातिर्मम पुत्राणाम् मातामह इति श्रुतः पूर्वं मे भ्रातरं राज्ये समावेश्य दिवङ्कतः केनवा वा कारणेनैव इह प्राप्तो महायशाः वैशम्पायनौ वाचा तस्यास्तद्वचनं श्रुत्वा स्थानभ्रष्टेति चाप्रवीत सा पुत्रस्य वचः श्रुत्वा माधवी पितरं प्राह दौहित्रपरिवारितम् माधव्युवाच तपसा निर्जितालोकान प्रतिगृह्णीष्वमामकान् पुत्राणामिव पौत्राणाम् धर्मादधिगतम् धनम् स्वार्थमेव वदन्तीह ऋषयो वेदपारगाः तस्माद्दानेन तपसा अस्माकं दिवमाव्रज ययातिरुवाच यदि धर्मफलम् ह्येतच्छोभनम् भविता तथा दुहित्रा चैव तारितोऽहम् महात्मभिः तस्मात्पवित्रम् दौहित्रमद्यप्रभृतिपैतृके भविष्यति न सन्देहः पितृणाम् प्रीतिवर्धनम् श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः त्रीणि चात्र प्रशंसन्ति शोचमक्रोधमत्वराम् दिवसस्याष्टमे भागे मन्दी भवति भास्करे सकालः कुतपो नाम पितृणाम् दत्तमक्षयम् तिलाः पिशाचाद्रक्षन्ति दर्भा रक्षन्ति राक्षसात् रक्षन्ति श्रोत्रियाः पङ्क्ति लब्ध्वा पात्रम् वैशम्पायनौ वाच एवमुक्त्वा यातिस्तु पुनः प्रोवाच बुद्धिमान् वे ह्यवभृतस्नातास्त्वरध्वम् कार्यगौरवात् अष्टकौ वाच आतिष्ठस्वरथान् राजन् विक्रमस्व विहायसं वयमप्यनुयस्यामो यदाकालो भविष्यति ययातिरुवाच सर्वैरिदानीम् गन्तव्यम् सः स्वर्गचितो वयम् एष नो विरजाः पङ्खा दृश्यते देवसम् मनः वैशम्पायन उवाच तेधिरुह्यरथान् सर्वे प्रयातानृपसत्तमाः आक्रमन्तो दिवम् भूमिर्धर्मेणावृत्यरोदसी अष्टकश्च शिबिश्चैव काशिराजः प्रतर्दनः ऐक्ष्वाकवो वसुमनाश्चत्वारो भूमिपाश्च सर्वे ह्यवभृतस्नाताः स्वर्गताः साधवः सः अष्टकोवाच अहम् मन्ये पूर्वमेकोऽस्मि गन्ता सखा महात्मा कस्मादेवं शिबिरोषी नरोऽयम् एकोत्यगात् सर्ववेगेन वाहान् ययातिरुवाच अदेवयानाय यावद्वित्तमविन्दत उशीनरस्य पुत्रोऽयम् तस्माच्छ्रेष्ठो हि वशिभिः दानम् तपः सत्यमथापि धर्मो ह्रीः श्रीक्षमा सौम्यमथो विधिन्सा राजन्नेतान्यप्रमेयाणि राज्ञः शिबेः स्थितान्यप्रतिमस्य बुद्ध्या एवम् वृत्तो ह्रीनिषेधश्च यस्मात् तस्माच्छिबिरत्यगाद्वैरथेन वैशम्पायनोवाच अथाष्टकः पुनरेवान्वपृच्छन् मातामहम् कौतुकेनेन्द्रकल्पम् पृच्छामि त्वाम् नृपते ब्रूहि सत्यम् कुतश्च कश्चासि सुतश्च कस्य त्वया यद्धि न तस्य कर्ता लोकेन्वदन्यः क्षत्रियो ब्राह्मणो वा ययातिरुवाच ययातिरस्मिन्नहुषस्य पुत्रः पुरोः पिता सार्वभौमस्त्विहासम् गुह्यम् चार्धम् मामकेभ्योऽब्रवीमि मातामहोऽहम् भवताम् प्रकाशम् सर्वामिमाम् पृथिवीम् निर्जिगाय प्रादामहम् छादनम् ब्राह्मणेभ्यः मेध्यानश्वानेकशतान्स्वरूपांस्तदा देवाः पुण्यभाजो भवन्ति अदामहम् पृथिवीम् ब्राह्मणेभ्यः पूर्णामिमाखिलाम् वाहनेन गोभिः सुवर्णेन धनैश्च मुख्यैस्तदाददम् गाः शतमर्बुदानी सत्येन वैद्यौश्च वसुन्धरा च तथैवाग्निर्ज्वलते मानुषेषु न मे वृथा व्याहृतमेव वाक्यम् सत्यम् हि सन्तः प्रतिपूजयन्ति यदष्टकप्रब्रवीमि हि सत्यम् प्रतर्दनम् चौषधस्विम् तथैव सर्वेच च मुनयश्च देवा सत्येन पूज्या इति मे मनोगतम् यो नः स्वर्गचितः सर्वान् यथावृत्तम् निवेदयेत् अनुसूयुर्द्विजाग्रेभ्यः सलभेन्नः सलोकताम् वैशम्पायन उवाच एवम् राजा समात्मा ह्यतीव स्वैर्दौहित्रैस्तारितोमित्रसाहः त्यक्त्वा महीः परमोदारकर्मा स्वर्गम् गतः कर्मभिर्व्याप्य पृथ्वीम् इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि उत्तरयायातसमाप्तौ त्रिनवतितमोऽध्यायः